मुद्गलपुराणं खण्डं वन् वक्रतुण्डचरितम् अध्यायं टु दक्षनन्दिविवादः श्रीगणेशाय नमः सूत उवाच दक्षेण मुनिशार्दूलाश्रुतं मुद्गलभाषितं प्रणिपत्य पुनःसोऽपि पप्रच्छतकारकम् शौनक उवाच दक्षमुद्गलसंवादं श्रोतुमिच्छामहे वयं विस्तरेण समाचक्ष्व सूत उवाच शृणुध्वं मुनय्यत् सर्वे कथां लोकैकपावनीम् यां श्रुत्वा पुरुषस्येह नान्यत्कृतं प्रविद्यते दक्ष मुद्गलसंवादं समासेन विवर्णये सारं सर्वत्र सम्पूर्णं भवरोगविमोचनं मुद्गलोक्तं वच श्रुत्वा दक्षप्रोवाच धर्मविद प्राञ्चलि प्रयदो भूत्वा कृष्टरो मा महायशाः दक्ष उवाच पुण्यं महन्मेस्ति पुरादनं यत्तेनैव जातं तव दर्शनं भोः मोक्षप्रदं तत्परलोगतं च भोगप्रदं धर्म्यमनन्दपुण्यम् शापेन नष्टो मम सर्वबोधप्रजापदित्वं प्रगदं मदीयं यज्ञस्य भंगो विविधं हि कष्टं तत्रैव ते दर्शनमत्र चित्रम् तव दर्शन समागता धन्योऽसि योगिनां मध्ये पूदत्वं त्वीदृशं त्वयि कोऽसौ विघ्नपदिः पूर्णकीदृशः किं स्वभाववान् कथितस्यावताराश्च कस्यांशो वापि किं स्तवः पूजितो विधिवत्कैश्च किं फलं दत्तवान्परं किम् विहारश्च कस्मिन्वै लोके वसति स प्रभुः एतत्सर्वं सुविस्तार्य पृच्छदे ब्रूहि ज्ञात्वा तं देवदेवेशं भविष्यामि हि इत्येवं कथयन्तं तं मुनयो विस्मयान्विताः पप्रचुःसकलं तद्वै दक्षचेष्ठितमादरादशौनकाड्या ऊचुः दक्षप्रजापदिक्षात् कथं मूढत्वमागतः प्रजापतित्वं तस्यापि कथं नष्टं महात्मनः यज्ञध्वं स कथं प्राप्तः शम्भुः प्रगुपितः कथं एतत्सर्वं महामदे श्रुत्वा मुनिवचो रम्यं कृष्णद्वैपायनस्य च शिष्यप्रोवाचमधुरं वचनं सम्प्रहर्षयन् सुद उवाच शृणुशौनकयत्नेन कथां भुवनपावनीं कथयामि यद्धा तद्ध्यं श्रुतां व्यासमुखेन यां ब्रह्मणो दशपुत्रा तत्रदक्षो महान् प्रभुः अधः प्रजापदित्रादा कृतस्तेन स वेधसा सराज्यं प्राप्य मत्तो सराज्यम्य मतभू गर्वेण्वरीलुद अहम प्रजापीना च्रेष्ठ राज वर्येदु कैलासे दर्शनार्थं गदा मुनय सिद्ध किन्नराः गन्धर्वा नागमुख्याश्च विद्याधर्यप्सरोगणाः ब्रह्माविष्णुर्महेन्द्रश्च सर्वे तेन सुसत्कृताः सभामध्ये समासीनाशङ्करेण च पूजिताः वामभागे स्थितो विष्णो दक्षिणाङ्गे पिदामहः क्रमेण सर्वे देवाश्च यथा योग्यं स्थिदा मुने गणानन्दिमुखास्तत्र समीपे संस्थिदा बभुः तत्रते ते मुनयो हृष्टा वसिष्ठाद्याः प्रतुष्टुवुः नारदप्रमुखाः सर्वे गन्धर्वा ललितं जगुः नृत्यमप्सरसश्चक्रुरेवं सर्वे पुभूजिरे शङ्करं परिवाराढ्यमानन्दनसमन्वितं कथा नानाविधास्तत्र ते कुर्वन् भावपूर्वकं तत्र जगामदक्षः स प्रजापदिपदि स्वयं शिवेन मानितस्तत्र भचस्सा चैव सत्कृतः न मनं न ईश्वरेण प्रभावतः तेन सङ्कुपितोत्यन्तमृचिवान् गर्वमोहितः ऋणुध्वं ये सभा श्रेष्ठा यथा ः रुद्रस्य श्वशुरोऽहं वै पुत्रतुल्यो ममाप्ययं नमनं न कृतं कस्मात् तस्मात् याज्यो महेश्वरः ऐश्वर्यगर्वयुक्तोऽयं स्वधुर्मन्यूनतां गदः देवभङ्गो कथं योग्य पिशाचानामधीश्वरः वर्णाश्रमविहीनोऽयम् नग्नो भिक्षाशनेरथः सर्पभूषणसकृतश्च चिदा भस्माङ्गलेपनः व्याख्राजिनपरीतश्च मुण्डमालाधरः सदा इत्यादिदोषयुक्तत्वान्नस्पृशोऽयम् महात्म अशिव शिवनामा वै वृधेशिवाभिमो न भाषणीय दोषकारी सचराट दिब्रुवंदमत्ययंस्म निराकत् न गृहीदम्पिदुर्वाक्यं क्रोधावेश्येन तेन ना तद् नानानिन्दायुदं वीक्ष्य भगवानन्दिकेश्वरः उवाच सर्वसान्निध्ये क्रोधेना रक्तलोचनः नन्दिकेश्वर उवाच दिक्त्वा व्यर्थं प्रजापाल शिवनिन्दा परायण शिवतत्त्वं न जानासि मदेनासि कृदुर्मदे मायाकेलनवानेश तथा तद्दोषवर्जितः तेनायां शिवदां प्राप्तः कथं निन्दा करोषिरे शिवनिन्दा कराशास्त्रे नारकाज्ञानवर्जिता अतस्त्वं ज्ञानहीनस्तु भवितास्य अपवाक्यतः निन्दायेनैव वक्त्रेण कृता शम्भोर्महात्मनः अजास्यो भवितासि त्वं भ्रष्टराज्यो भविष्यसि यदि श्रुवा वचस्वि प्रत्युवाच नंजासी दुर्बु शंकर कर्मदूषित वर्णाश्रम विहन कदा पद पदे, पदे महापापो नारकी मरणे भवत तस्म पापा शैवा स्पृश न कुचिद भुवि ये शांग ज्ञान ते कल प्राप्ते जब्यड़ाधरा शूद्रनेदम पठिष्य नग्ना भस्लेपना स्त्रीमांसमधिरासक्ता नानाभोगकरास्तथा नरके वै पदिष्यन्ति शम्भुमार्गपरायणाः प्रजापतिं प्रभुः साक्षाद्ब्रह्मादं निरभत्स्य यत ततो जगामस्वगृहं दक्षक्रोधपरिप्लुदः सर्वेते ते स्वस्थलं जग्मुदुःखितास्तेन वै कृताः शिवोऽपि दुःखसंयुक्तो म्लानदां परमां गताः ॐ तत्सदि श्रीमदान्त्ये पुराणोपनिषद्दिश्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते दक्षनन्दिविवादो नाम अद्वितीयोऽध्यायः ओ